Thirad Arjuniyam is a maha kaaviyam composed by poet Bharavi. Lord Shiva and Arjuna are the characters in this kaaviyam. Thirad Arjuniyam Sargam 1 Shriya Kuro Nama Dhipashyapalanim Prajasuvruttim यमयुङ्कृवेदितुं सवर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वने चरः कृतप्रणामस्य महीं महीभुजे जिदां सपत्नेन निवेदयिष्यतः न विव्यधेतस्य मनो न प्रवक्तुमिच्छन्ति मृषाहितैषिणः द्विषां विखाताय विधातुमिच्छतो रहस्य अनुज्ञामधिगम्यभूभृतः सौष्ठवौदार्यविशेषशालिनीं विनिश्चितार्थामिदि वा ज क्रियासु युहृदायैर्नृपचारचक्षुषो न वञ्चनीयाः प्रभवो नु जीविभिः साधु, साधु वा हिदं मनोहारि च दुर्लभं ितान्न य सं किं प्रभुः सदानुकूलेषु हि कुर्वदेरतिं नृपेष्वमात्येषु च सर्वसम्पदः निसर्गदुर्बोधमबोधविक्लभाक् क्व भूपतीनां चरितं क्व जन्तवः तवानुभावोऽयमवेदि यन्मया निगूढतत्वं नय वर्मविद्विषां विशङ्गमानो भवतः पराभवं दुरोद्धरच्छद्मजितां समीहते नयेन ना जेतुं जगतीं सुयोधनः तथापि जिह्मः स भवज्जिगीर्षया तनोदि शुभ्रं गुणसम्पदा यशः समं महात्मभिः कृतारिषड्वर्गजयेन मानवीमगम्यरूपां पदवीं प्रपित्सुना विभज्य न क्दन् दिवमस्ततन्द्रिणा वितन्यतेन नयेन पौरुषम् सखिनिव प्रीति युजोनुजीविनः समानमानान् सुहृदश्च बन्धुभिः ससन्तदं दर्शयदे गदस्मह्यकृताधिपत्यामिव साधु बन्धुताम् असक्तमाराधयदो विभ्य भक्रिया समपक्षदुणागावसख्य मीय्वान्न परस्परम। परस्पर निरत सामनदनवर्जिम न भूरिदानं विरहय सत्क्रिया प्रवर्त तस्य विशेषशालिनी गुणानुरोधेण विना न सत्क्रिया वसूनि वाञ्छन्नवशीनमन्युना स्वधर्म इत्येव निवृत्तकारणः गुरूपदिष्टेन रिपौ सुदेपि वा निहन्तिदण्डेन स धर्मविप्लवम् विधाय रक्षान् परितः परेतरा न शङ्गिताकारमुपैति शङ्गितः क्रियापवर्गेषु अनुजीविसात्कृदा कृतज्ञदामस्य वदन्ति सम्पदः अनारदं तेन पदेषु लम्भि विभज्य सम्यग् विनियोगसत्क्रियाः फलन्द्युपाया परिभृंहितायतिरुपेत्य सङ्घर्षमिवार्थसम्पदः अनेकराजन्यरथाश्वसङ्कुलं तदीयमास्थाननिकेतनाजिरम् नयत्ययुग्मश्चद गन्धिरार्द्रदां दृश्यं नृपोपायनदन्दिनां मदः सुखनलभ्या दधकृषीवलैरकृष्टपच्या इव सस्यसम्पदः वितन्वधिक्षे मम देवमातृकाश्चिराय तस्मिन् कुरवश्चकासति महौजसो मानधनाधनार्चिदा धनुर्भृदसयदि लब्धकीर्तयः नः संहतास्तस्य न भेदवृत्तयः प्रियाणि वाञ्छन्त्य उदारकीर्तेरुदयम् प्रशान्दबाधं प्रशान्तबाधं दिशदोऽभिरक्षया स्वयं प्रदुध्येस्य गुणैरुपाश्नुता वसोपमानस्य वसुनिमेदिनी मेदिनी महीभृदां सच्चरितैश्चरैक्रियाः सवेदनिःशेषमशेषितक्रियः महोदयैस्तस्य हिदानुबन्धुभिः प्रदीयते धादुरिवे हिदम् फलैः न तेन सज्यं क्वचिदुद्यतं धनुर्नवा कृतं कोपविजिह्ममाननम् गुणारागणशिरोह्यमल्यवा शासनम सौवराज्ये नवयौवनोम निधा दुशासनिधासन मकेशनों मदस दिनो दिहव्येन हिरण्यरेतसं प्रलीन स्थिरा यदि प्रशासदा वारिधि मण्डलम्भुवः स चिन्तयत्येव भियस्त्व देष्यतीरहो दुरन्दा बलवद्विरोधिता ध प्रसंगेन जनैरुदा हृदा दनुस्मृदा कंदल सूनु विक्रमा तवादे नता न सुस्सहांत्रपदा दिवोरग पदाशु कर्मि जिह्म विधीयताम् तत्र विधेयमुत्तरम् परप्रणीतानि वचांसि चिन्वदाम् प्रवृत्ति सारा खलु मादृशाम् गिरः इति रयित्वा गिरमात्तसत्क्रिये प्रविश्य कृष्णा सदनम् महीभुजा तदा च चक्षेऽनुजसन्निधौ वचः निशम्यसिद्धिम् द्विषदामभाकृतिस्तदस्तदस्त्या विनियन्तुमक्षमा नृपस्य मन्युव्यवसा यदीपिनीरुदाजहारद्रुपदात्मजा गिरः भवादृश्येषु प्रमदा जनोदिदं भवत्यधिक्षेप इवानुशासनम् तथापि वक्तुं व्यवसाययन्ति मां निरस्तनारी समया दुराधयः अखण्डमाखण्डलतुल्यधामभिश्चिरं धृगा भूपदिभिः स्ववंशजैः त्वया स्वहस्तेन मही मदच्युग मदङ्गजेन स्रहिवापवर्जिता व्रजन्ति ते मूढ धियः पराभवं भवन्ति माया विषु येन मायिनः प्रविश्य हिघ्नन्ति षदास्तथा वः गुणानुरक्तमनुरक्तसाधनकुलाभिमानी कुलजां नराधिपः परैत्वदन्यक इवापहारयेन् मनोरमात्मवधूमिव श्रियं भवन्त मे दर्हि मनस्विगर्हि दे विवर्तमानं नरदेववर्त्मनि कथं न मन्योर्ज्वलयत्युदीरि दशमेतरुं शुष्कमिव अग्निरुचिकः अवन्ध्यकोपस्य विहन्धुरापदां भवन् दिवश्या स्वयमेव देहिनः अमर्ष शून्येन जनस्य जन्तुना न जादहार्देन न विद्विषादरः परिब्रह्मं लोकितचन्दनोचिद्धपदादिरन्तर्गिरिरेणुरूषिदः महारधः सत्यधनस्य मानसं धुनो दिनो कच्चिदयं भृगोदरः विचित्य यः प्राज्य मयचदुत्तरान् कुरु न कुप्यं वसुवासवोपमः स वल्पवासांसितवाधुनाहरन् मन्युं न धनञ्जयः वनान्तशय्या कठिनीकृता कृती कचाचितौ विश्वगिवा गजौ गजौ कथं त्वमेतौ धृति संयमौ यमौ विलोकयन्नुत्सहसेन बाधितुम् इमामहं वेदनतावकीं धियम् विचित्र खलु चित्तवृत्तयः विचिन्तयन्त्या भवदापदम्परां रुजन्ति चेतः प्रसभं ममाधयः पुराधिरूढशयनं महाधनं विबोध्यसे यस्तु अदभ्रदर्भामधिशय्य सस्तलीं जहासि निद्राम शिवै शिवारुतैः पुरोपनीतं नृपरामणीयतं द्विजादिशेषेण यदेतदन्धसा तदद्यदेवन्यफलाशिनः परम् परैदि कार्श्यम् यशसासमम् बभुः अनारदम् यौ मणिपीडशायिना वरञ्जयद्राजशिरस्रजाम्रजः निषीदतस्थौ चरणौ वनेषु मृग द्विजालूनशिखेषु बर्हिषाम् द्विषन्निमित्ता यदियम् दशा तदः समूलमुन्मूलयदीव मे मनः परैरपर्यासिद वीर्यसम्पदां पराभवोऽप्युत्सव एव मानिनाम् विहाय शान्दिं प्रसीद सन्धेहि वधाय विद्वेषां व्रजन्ति शत्रूनवधूय निःस्पृहाश्रमेन सिद्धिं मुनयो यशोधना सुदुःसहं प्राप्य निकारमीदृश्यं भवा दृश्याश्चेदधिकुर्वदे निराश्रया हन्त हदा मनस्विदा अधक्ष मामेव निरक्तविक्रमश्चिराय सुखस्य साधनम् विहाय लक्ष्मीपदि लक्ष्मकार्मुकम् जडाधर सञ्जुहुधी स पावकम् क्षमं ते निकृति परेषु परेषु भूरि धाम्नः हि विजयार्धिनः क्षिदीशा विददधि सोपधि समय सोपधिसन्धिदूषणानि विधिसमयनियोगाद्दीप्ति संहारजिह्मं शिथिलवसुमगाधे मग्नमापत्पयोधौ रिपु तिमिरमोदस्योदियमानं दिनादौ दिनकृतमिव लक्ष्मी स्वाम् समभ्युभूय यदि श्रीभारवीत किरादारजुनी महाकाव्ये प्रथम सर्ग